पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमाश्रु ग्रन्दे॒वीतये वाजय॑न्तो रथा इवा पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमाश्रु ग्रन्दे वीतये वाजय॑न्तो रथा इवा पवस्व सोममन्दयन्निन्द्राय मधुमत्तमा असृग्रन्दे वीतये वाजयन्तो रथा इवा